नमो नमः अस्माकम् नमस्ते नमो नमः सर्वेषाम् स्वागतम् आरम्भम् कुर्मः अधुना राधा भगिनी प्रार्थनया आरम्भम् करोति वा नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोक्ता गोपालनन्दनः पार्थो वत्स सुभोक्ता दुग्धम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् वन्दे धन्यवादाः एकवारं यत् वयं पठितवन्तः तत्र तालिकारूपेण वयं दृष्टवन्तः गतसप्ताहे तत् एकवारं तत् पश्यामः अनन्तरं पुस्तकं प्रति गच्छामः कथमस्ति तत् पश्यामः एवमस्ति दृश्यते स्क्रीन् दृश्यते सर्वेषाम् एकवारं एकवारं पठामः अनन्तरं वयम् अग्रे सरेमः जयन्तीभगिनी भवती पठति वा जयन्ति भगिनी आं भेदि एकनिमिषः प्रथमः प्रथमा तत् एकवचनं स्तः द्विवचनं तौ बहुवचनं ते प्रथम अस्मत् शब्दम् अहम् एकवचनम् आवां द्विवचनं वयं बहुवचनं प्रथम युस्मत् शब्दं त्वम् एकवचनं युवां द्विवचनं बहुवचनं यूयम् कर्तरि लट् लकारे परस्मैपदं वदति वदतः वदन्ति वदसि वदत वदतः वदत वदामि वदावः वदामः तत् वयं गतसप्ताहे प्रथमा तद् तस्य एकवचनं द्विवचनं सः तौटै तत्र कानिचन वाक्यानि वयं दृष्टवन्तः अधुना अद्यदिने अस्माकम् उद्देशः अहम् आवां वयं तथैव युष्मशब्दस्य त्वं युवां युयं mm. अधुना चे भगिनी तत्र अहं गायामि अहं mm. गायामि इति mm. अहं वदामि अधुना तत्र अहम् mm. आवां वयं तत् कथं भवति ते अहं गायामि आवां गाया गाया, आ, गाया व, आ, आ, hmm. आवां गायतः वयं गायामः गायावः सारि गायावः गायामः वयं गायामः अधुना अहं गणयामि गणयामि गणयामि अहं गणयामि आवां गणयावः वयं गणयामः सम्यक् धन्यवादः उत्तमं धन्यवाद भगिनी भारत अधुना भारत भारतमहोदय अहम् इच्छामि अहम् इच्छामि इच्छामि ओके अहम् okay. इच्छामि आवाम् इच्छावः उत्तमं वयम् इच्छामः उत्तमम् अहं बिन्दामि अहं अहं बिन्दामि बिन्दामि तत् प्राप्ति भवति इति तत् वह, वयं बिन्दामः उत्तमम् उत्तमम् अस्ति महोदय अधुना तत्र त्वं प्रति गच्छामः तत्र त्वं युवां यूयम् एकवारं भवानेव भारतमहोदय त्वं सः कर्तरि लट्लकार कथं भवति वाक्यं त्वं वदधातु विषये वि त्वं <t> त्वं <-थातू वीशेवे> न <-थातू थातू? t -थातू> परन्तु तत् त्वम् इति कर्ता अस्ति त्वं वदसि उत्तमम् उत्तमं त्वं वदसि वदथ यूयं वदथ उत्तमम् अधुना त्वं कथयसि पूरयतु कथयति रैट् कथयसि ओके कथयसि कथय अत्र कथ अत्र एकं वदामि स्पष्टीकरणार्थं तत्र कथसि इति मनसि आगच्छति यदा कथधातु अस्ति चेत् कथसि रूपं भवेत् तत् अयोग्यं न परन्तु किमस्ति महोदय अत्र कथधातु गणे दशमे गणे अन्तर्भूतः चुरादिगणे ये धातवः सन्ति तेषां कृते यकार विकरणरूपेण आगच्छति अतः तत्र कथयसि अनन्तरं भक्षयसि एवमस्ति okay. अतः तत्र कथधातु चुरादिगणे अतः उक्तवती त्वं कथयसि अधुना अग्रिमे वदतु युवां कथयथ उत्तमं कथय उत्तमम् अधुना त्वम् उपविशसि त्वम् उपविशसि त्वम् उप उपविशसि युवाम् उपविशथ युवम् उपविशथ उत्तममस्ति बहु सम्यक् महोदय बहु सम्यक् धन्यवादः धन्यवादः अधुना पुस्तकं प्रति गच्छामः एतत् तथैव पुस्तके अस्ति उत्तमप्रकारेण सर्वे उक्तवन्तः पश्यामः कथमस्ति चेत् तत्र अस्माकं पृष्ठक्रमाङ्कः अस्ति षट्त्रिंशत् ततः आरभ्य अहम् आवां वयम् पश्यन्तु अत्र अहम् आवां वयं त्वं युवां युयं तथैव जयन्तीभगिनी अधुना उक्तवती अहं कृते भरतमहोदय उक्तवान तत्र कथं भवति कथं भवती उपविशसि कथयसि तत् एकवारं पठित्वा अग्रेसरे अस्तु अगस्ट् महोदये भवान् एकवारं पठति वा अहं नमामि ततः आरभ्य अस्तु भगिनी अहं नमामि आवां नमावः वयं नमामः अहं गायामि आवां गायावहं वयं गायामः अहं गणयामि आवां गणयावः वयं गणयामः अहम् इच्छामि आवाम् इच्छावः वयम् इच्छामः अहं विन्दामि आवां विन्दावः वयं विन्दामः अस्तु अधुना अहं नमामि तत् अहम् आवां वयं तु तत्र लिखितमस्ति अधुना भवान मनसि एव सम्पूर्णतया तालिकां तत्र सह सः तौते सः तौते ततः आरभ्य नमधातोः कृते तालिकां वदति वा सः नमति ततः आरभ्य आम् आम् भगिनि सः नमति तौ नमतः ते नमन्ति सः गायति उत्तमं त्वं नमसि युवां नामथः यूयं नमथामामि आवां नमा नमावः वयं नमामः उत्तमं बहु उत्तमं तत् तथैव गायामि विषये अपि तालिकां वदतु सः आरभ्य सः सः गायति गायतः ते गायन्ति गायसि युवां गायथा गायथा यूयां गायथा उत्तमम् अग्रिमे अहं गयामि इतोपि एकं करोतु गणयामि गणयामि सः ततः आरभ्य सः सः गणयति उत्तमम् तौ गणयतः mm -hmm. ते गणयन्ति त्वं गायसि यूयं गणयथा गणयामि बहु सम्यक् महोदय बहु धन्यवादः धन्यवादः अधुना त्वं विषये अपि तत्र दत्तमस्ति राधाभगिनी भवती पठति वा म् भगिनीम् पठसि युवाम् पठतः यूयम् पठथ त्वम् अर्हसि युवाम् अर्हतः यूयम् अर्हथ त्वम् छात्रः असि युवाम् छात्रौ स्त यूयम् छात्राः त्वम् उपविशसि युवाम् उपविशतः यूयम् युवाम उपविशथ त्वं कथयसि युवां कथयथः यूयं कथयथ अधुना पठधातु स्वीकृत्य सह आरभ्य सम्पूर्णरूपेण तालिकां वदति वा आं भगिनि सः पठति तौ पठतः ते पठन्ति त्वं पठसि युवां पठतः यूयं पठ पतत, पठतः अहं पठामि आवां पठावः वयं पठामः उत्तमम् अस्ति अधुना पश्यन्तु तत् अर्हसि अर्ह अर् योग्यम भवामी योग्यम भवाम ऑर् तर्हसी योग्यम भवसी हाँ अर्ह इस्टु कैपबल इश् इस टु क्वाफाई और टु बिक योग्यन त्रतीक्यम छात्र असी की अस्थ स्थ अ प्रकार अ अस्ति पुस्तके अस् धातु तत्र अस्ति तालिका नास्ति वा सम्पूर्णतया अस्तु अहं वदामि तत्र अस्ति स्तः सन्ति अनन्तरम् असि स्थः स्थ अस्मि स्वः स्मः अत्र पश्यन्तु तत्र सः अस्ति थ त्र प्रथम पुर द्विवनाथ त्र तौ त्र अस्थि नस्त अच्छा लोप दृश्य से तथा अहम क्षमता सह अस्त अनतर सह तौ ते ते सन्ति अत्र सन्तिपि तत्र अकारस्य लोपः जातः सः अस्ति तौ स्तः ते सन्ति अनन्तरं त्वम् असि त्वं त्वमेव प्रत्यक्षं ब्रह्मासीत् त्वमेव केवलं कर्तासीत् तत् अस्ति राधा भगिनि त्वम असि युवां स्थः यूयं स्थ अत्रापि पश्यन्तु अकारस्य लोपः दृश्यते युवां स्थः न अस्थः यूयं स्थ न mm -hmm. अस्थ तत्र अकारस्य लोपः अनन्तरम् अहं कृते अहम् अस्मि आवां स्मः वयं स्मः एवमस्ति तथैव अत्र त्वं छात्रः असि युवां छात्रौ यूयं छात्राः स्थ एवमस्ति अधुना hmm. राधा भगिनी भवती अत्रापि hmm. सह छात्रः अस्ति तत आरभ्य वाक्यानि रचयति वा आं भगिनि छात्रः अस्ति तौ छात्रौ सः छात्रा अस्ति तौ छात्रः लोप ते छात्राः सन्ति उत्तमं त्वं त्वं छात्रः असि युवां छात्रौ स्तः यूयं छात्राः स्त अग्रिमे अहम् अहं छात्रः अस्मि भवां छात्रौ स्वः वयं छात्राः स्मः उत्तमम् उत्तमम् धन्यवादः अस्तु अधुना अभ्यासस्य आरम्भं कुर्मः जयन्ति भगिनी भवती पूरयति वा तत् उदाहरणं यथोदाहरणं रिक्तस्थानि पूरयत स्यूतः अस्ति स्यूतौ स्तः स्यूताः सन्ति बालाः उपविशन्ति बालः अस्ति बालौ स्तः बालाः उपविशन्ति तत्र भगिनी तत्र बालः उपविशति बालः उपविशति एवं वदति बालः उपविशति बालाः उपविश विशत् विशतः बालौ श उपविशतौ उपविशतौ न बालौ वदति वदतः वदन्ति एवं खलु उपविश आम् बेनि बालः उपविशति बालौ उपविशतः बालाः उपविशन्ति अश्वः धावति अश्वौ धावतः अश्वाः धावन्ति धेनु चरति धेनुः चरतः धेनवः चर चरन्ति उत्तम फलं फलं पतति फले पततः फलानि पतन्ति बाल् बालो बालः क्रीडति बालौ mm -hmm. क्रीडतः बालाः mm -hmm. क्रीडन्ति mm -hmm. नर्तकी नृत्यति नर्तकी नृत्य नर्तकी नृत्य नृत्यतः नर्तक्यः नृत्यन्ति पुनः एकवारं वदतु नर्तकी नृत्यति अनन्तरं किमुक्तवती भवती नर्तक्यौ नृत्यतः सैनिकौ सैनिकः आरोहति सैनिकौ आरोहतः सैनिकाः आरोहन्ति भक्तः प्रयच्छति भक्तौ प्रयच्छतः भक्ताः प्रयच्छन्ति दृष्टः सारि दुष्टः प्रणश्यति दुष्टा दुष्टौ प्रणश्यतः दुष्टाः नश्यन्ति नृपः तुष्यति नृपौ तुष्यतः नृपाः तुष्यन्ति एषः एषा कुप्यति एते एते कुप्यतः एताः एताः कुप्यन्ति बहु सम्यक् अत्र कथमस्ति सा ते ताः तथैव एषा एते एताः एषा एते एताः योग्यम् उत्तमम् अग्रिमे एषः शोचति एत, एते एतौ शोच शोचत शोचतः एते शोचन्ति अत्र कथमस्ति अत्र सः तौ तथैव एषः एतौ एते एवमस्ति उत्तमम् उत्तममस्ति धन्यवादः बेनि धन्यवादः धन्यवादः अधुना अत्र तथैव अभ्यासरूपेण दत्तमस्ति कथं बालकः अस्ति बालकौ स्तः बालकाः सन्ति एवं वक्तव्यमस्ति हा भारतमहोदय भवान् आरम्भं करोति आं भगिनी बालकः अस्ति बालकौ स्तः बालकाः सन्ति नेक्स्ट् वन् मित्रम् अस्ति मित्रे स्तः मित्राणि सन्ति अस्ति, अस्ट बालिके स्वती सीन अस्ट स्तंत सः mm. सः uh, अस्ति mm. तौ स्तः ते सन्ति mm. सा अस्ति mm. ते स्तः सन्ति स्तः mm. अस्ति ते Hmm. अधुना भारतमहोदय तत्र अस्ति स्तः सन्ति तथैव इच्छति इच्छतः इच्छन्ति वदति वदतः वदन्ति एवमस्ति भवान् okay. तस्यापि चयनं कर्तुं वक्तुं शक्नोति okay. राट् right? एषः एषः एषः इच्छति एतौ इच्छतौ इच्छतः एतौ इच्छत एते इच्छन्ति सम्यक् नेक्स्ट् वन् अग्रिमे एषा एषा इच्छ इच्छति एते इच्छ इच्छतः एताः इच्छन्ति उत्तमम् अग्रिमेः एषः मुनिः एते मुनि मुनिः वदति वा मुनिः अस्ति मुनिः इच्छति एवं वदतु मुनिः mm. इच्छति मुनि इच्छतः मुनियः इच्छन्ति गुरुः mm. इच्छति गुरु इच्छतः mm. गुरवः mm. इच्छन्ति mm. पिता इच्छति पितरौ इचत इतर इत इचत मतर इ व्यक्ति व्यक्ति व्यक्त इच्छन्ति धेनुः इच्छति धेनुम् इच्छति इच्छतः धेनवः इच्छन्ति वधुः इच्छति वध्वो इच्छतः वध्वः इच्छन्ति उत्तमम् बहु सम्मेक, बहु सवाद याद तर अन मध्यमुष उत्तम पुष्कर तथा त्र दर्ज तम असीं गी वससी युवां स्थ युवा गुवां वसथ यूय स्थ यूय ग्छथ यूयसथ तथा उत्तमुष से कृते कि अहमस्म आवाम स्व वयं स्मः अहं गच्छामि आवां गच्छावः वयं गच्छामः अहं वसामि आवां वसामः वयं वसामः इत्युक्ते अस्माकं मनसि तत्र तालिका दृढ दृढरूपेण तत्र तालिका अस्माकं मनसि अस्ति सर्वं सम्यक् भवति तत्र क्रियापदं कथं तस्य रूपाणि कथं भवति भवन्ति तथैवं सर्वं स्पष्टरूपेण वयं वक्तुं शक्नुमः अधुना अग्रिमे तत् किञ्चित् विशेषक्रियापदानां कृते एकः अंशः अस्ति तत् वयम् अनन्तरं पठामः प्रथमं तु तत्र अभ्यासरूपेण तत्र चित्रवर्णनमिति कथं करणीयं तत्र चित्रमस्ति एतत् चित्रं पश्यत चित्रे के के किं कुर्वन्ति इति यथोदाहरणं वाक्यानि लिखत इत्युक्ते वाक्यानां रचना हा तत् वयं कुर्मः अद्यदिने हा तत्र चित्रे किं किं दृश्यते तत्र धेनवः सन्ति तत् लिखितमस्ति उदाहरणार्थं धेनवः चरन्ति अस्माकं मनसि इदानीं किं भवेत् यदा एकवचनान्तरूपमस्ति चेत् क्रियापदं किम् आगच्छति द्विवचनान्तम् अस्ति चेत् किं क्रियापदं बहुवचनान्तं कर्तुरूपेण आगच्छति चेत् किं क्रियापदम् एतत् सर्वं मनसि भवेत् तदा एव वयं वाक्यं रचयितुं शक्नुमः अधुना अवश्यमहोदय भवान् आरम्भं करोति वा एतत् चित्रं पश्यताम् चित्रे के किं कुर्वन्ति इति यथोदाहरणं वाक्यानि लिखता hmm. यथा धेनवः चलन्ति hmm. अधुना तत् किञ्चित् अस्पष्टतया दृश्यते खलु वदतु i i did there uh, home work so i have some some sentences takya ha, ha ha bade to sakya ha sakya ha sambhashante aa ah, sambhashanam sambhashanam ekat uh, sambhashante sambhashanti, sambhashanti. asu sama upasarga purvak परंतु अंती भाषा धातु अस्त महोदय तष्ट धातु आत्मनेपदी अस्त आत्मनेपदी रूप इधानर्यत वा अतः तरह भाषधा कृते टी प्रत न आग्छति अतः भाई वदी रूप स्वीकृत वदतीद धा कृते वाक्यं सख्या वदन्ति वदन्ति उत्तमम् अग्रिमे इतोपि बालाः क्रीडन्ति उत्तमं बालाः क्रीडन्ति इतोपि वृक्षाः सन्ति वृक्षाः सन्ति उत्तमम् इतोपि hmm. वृक्षः व्रिक, अधः hmm. जा, वृक्षस्य अधः तत्र षष्ठीरूपं ah. वृक्षस्य अधः जनौ स्तः उत्तमम् उत्तमम् अग्रिमे अस्ति महिला किं वदतिमुखी यु आर् टाकिङ्ग् अबौट् ह पोजिशन् इस् Yes, yeah, she is looking to the horizon. She is... Sa sammukhi nasti ati. Chitrasya astu evambadati vah. Astu, astu. Astu, astu, astu. Yogyam. Ito is. Duri, Ubhau, Mitrao. Hmm. Samvadha uh, Taha. उत्तमम् उत्तमम् दूरे तत्र कः दृश्यते दूरे स्थिते दूरे स्थिते किमस्ति तत्र दूरे किं दृश्यते पर्वतः दृश्यते पर्वतः दृश्यते खलु अनन्तरं तत्र समीपे महिलायाः समीपे श्वा महिदीचन जल्पन पुषा ती जल्पन कुरी एवं सर्वे उत्तमम् उत्तमं प्रकार उत्तमप्रकारेण भवान् उक्तवान् अस्ति अत्र योग्यं योग्यं हा धन्यवादः धन्यवादः इतोपि एकं चित्रं वयं पश्यामः चित्रवर्णन अनन्तरं श्लोकः अनन्तरं कथा राधा भगिनी भवती अधुना चित्रं दृष्ट्वा वदति वा आं भगिनि राधा भगिनी आं वदतु वृक्षाः सन्ति माता आ, बा बालकाः सङ्घे चलन्ति अत्र भगिनी तत्र सहयोगे तृतीय आगच्छति खलु मात्रा सह मात्रा इति तृतीयान्तपदं मात्रा सह बालकाः चलन्तित्रा सह बालकाः चलन्ति सन्ति Uh, uh, uh, पक्षौ uh, उडतः हा अत्र वयम् एवं वदामः तत्र खगा खगः okay. तत्र खगौ mm. आकाशे खगौ विहरतः बिहरतः एवं भवति खलुतः आकाशे मेघः अस्ति आकाशे मेघः तरन्ति वा मेघः अस्ति वृक् वृक्षः फलानि अग्रे वृक्षः फलानि सन्ति वृक्षे तत् फलं दृष्ट्वा वयं वक्तुं शक्नुमः तत् आम्रफलम् अस्ति इति खलु आम्रफलम् आम्रफलानि सन्ति आम्रफलानि सन्ति अधुना जलमस्ति जले किं दृश्यते जले पुष्पमस्ति पुष्पाणि सन्ति कमलपुष्प तत्र वयं वक्तुं शक्नुमः तत्र जले पुष्पाणि विकसन्तिङ्ग्लूमि पुष्पाणि विकसन्ति तत्र पश्य उत्तमम् उत्तमम् अस्ति भगिनी सर्वे उत्तमप्रकारेण एव उक्तवन्तः इतोपि वयं किं कर्तुं शक्नुमः अस्तु अस्माकं पुरतः तत्र चित्रवर्णनप्रसङ्गवर्णनं करणीयं तत् प्रथमं यथा बाल्यकाले वयं सर्वे शालायां कथम् इदम् इदम् इदम् उद्यानस्य चित्रम् अस्ति नो चेत् एतत् उद्यानस्य चित्रम् अस्ति प्रथमं वाक्यं उद्यानस्य hmm. चित्रम् अस्ति अनन्तरं वयम् इतोपि तत्र माता इति भवती उक्तवती तत् अपि योग्यम् परन्तु hmm. तत्र वयं वक्तुं शक्नुमः अनेके बालकाः बालिकाः सन्ति बालकाः बालिकाः सन्ति हा तत्र अत्र एकः स्टैल् आफ् स्पीकिङ्ग् तत्र अनेके बालकाः बालिकाः च सन्ति पर्टिक्युलर्ली देर् आर् मेनि देन् अनेके बालकाः बालिकाः च सन्ति अनन्तरं hmm. hmm. यथा भवती उक्तवती मात्रा सह तत्र तृतीया विभक्त्यन्तरूपाणि तथैव वयं वक्तुं शक्नुमः hmm. बालकाः बालिकाः च सन्ति अनन्तरं वयं वक्तुं शक्नुमः तैः सह सः तम तं तौतान् तेन ताभ्यां तैः तैः हा mm. तृतीयाबोध्यां तैः सह शिक्षका शिक्षिका अपि अस्ति mm. नो चेत् बालकैः सह शिक्षिका अपि सन् अपि अस्ति mm. जले जले बहूनि पुष्पाणि वा अनेकानि पुष्पाणि विकसन्ति एवं सर्वं यद्भवती उक्तवती तदपि उत्तममस्ति सर्वे उत्तमप्रकारेण एव उक्तवन्तः एतत् सर्वं वयं कुर्मः मध्ये मध्ये तत् चित्रवर्णनं वा कथा कथनं एवं सर्वम् अस्तु अधुना अस्माकं धन्यवादः राधा भगिनी धन्यवाद अद्यदिनस्य श्लोकं प्रति गच्छामः तत् श्लोकमपि अस्माकं पश्यन्तु श्लोकः अधुना जयन्ती भगिनी भवती पठति वा श्लोकः बेनी पठति वा युज्यो यज्ञो यज्जुहोऽसि तदासी यत् यत्त यत्तपस्यसि तप, कौन्तेय तत् कुरुष्व मधत्पनम् सर्वाणि थोडा अवाज्कं किजिये थोडा अवाज्कं किजिये अत्र सर्वत्र मध्यमपुरुषरूपाणि मध्यमपुरुष एकवचन त्वम् इति त्वं यत् करोषि करोषि अधुना अत्र सर्वे जानन्ति वा तत्र श कथमागच्छति तत् वदति इति रेप हम सूत्रमे पाणिनीयसूत्रम् अस्ति रकारेपम् अस्ति खलु तत्कारणेन तत् तत्र शकारं सत्यं योग्यमेव परन्तु mm. यदा जयन्ति भगिनी यदा तत्र तिङ्प्रत्ययानां यो योजनां कृत्वा रूपसिद्धिः mm. भवति तदा तत्र mm. एकं सूर्यं सूत्रं कार्यं करोति का, आदेशप्रत्यययोः आम् इनुको mm. इन, आदेशो आदेशप्रत्ययस्य अत्र कार्यं ah. करोति ah. तत्र यत् करोषि राधा भगिनी mm. राधा भगिनी आं भगिनि अत्र किम् अभवत् इति अस्ति खलु मूलतः परन्तु तत्र शकार कथम् तत् यथा भगिनी उक्तवती अत्र एण्कोपरे एको तत्र ओकार अस्ति खलु सकारस्य प्राक् ओकारः अस्ति करोशि र ओ इति अस्ति तत्र करोषि ओकार अस्ति अतः तत्र ओकार अस्ति अतः तत्र सकारस्य शकारः भवति तत्र करोषि इति रूपं तथैव यत् जुहोषि तत्र अपि जुहोषि इति मूलतया परन्तु तत्र रूपान्तरणं शकारे जुहोषि अधुना श्लोकं प्रति गच्छामः एकवारं वदामि तत् किं दत्तमस्ति इति यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् ददासि यत् यत् तपस्यसि त्वं तपस्यसि सर्वेषु स्थलेषु कर्तृरूपेण त्वं त्वं त्वं, त्वं। यत् तपस्यसि कौन्तेयः तत् कुरुष्व मदर्पणम् अत्र कुरुष्व अत्र पश्यन्तु श्रीकृष्णभगवान् तत् अर्जुनम् वदति हे अर्जुन त्वं यत् करोषि त्वं यत् अश्नासि त्वं यत् जुहोषि त्वं यत् ददासि हे अर्जुन त्वं यत् तपस्यसि कौन्तेय इति अर्जुनस्य सम्बोधनम् हा कौन्तेय कुन्तेः पुत्र कौन्तेय हे कौन्तेय यत् त्वं तपस्यसि तत् मदर्पणं कुरुश्व अत्र सि द ब्यूटि आफ् लेङ्ग्वेज् कुरुष्व इत्र अत्र अपि लोट लकार लोट्लकार एक एकवचनान्तरूपमेव परन्तु तत् लोट्लकारे दत्तं वर्तते इतोपि तत् क्रूरः तु यत् अस्ति करणे इति तत् आत्मनेपदी एव तथैव रूप तस् आत्मनेपदीन रूपये अंति परस्मदीन रूप अंति अतः तरह उभपदी धा उभयपदीन सत्यम सत्य उभयपदी धा अतः तुष्व तत्मनेपदी रूप से योजना लोट लम पुष एक स्थल तत्र अहं वयं तदेव वयम् अद्यदिने पठितवन्तः मध्यमपुरुष उत्तमपुरुष अतः ता अहं तावदेव तत् तादृशम् ता एव श्लोकस्य चयनमहं कृतवती तत् तत् कुरुष्व लोट्लकार मध्यमपुरुष एकवचनं कुरु इति मध्यमपुरुषपरस्मैपदी भवति रूपं तत् कुरु परन्तु अत्र कुरुष्व आत्मनेपदी रूपं लोट्लकार मध्यमपुरुष एकवचनम् अन्ु स्थल कौशि अश्नासी जुहोषि ददासी तपस्सी स्थल परस्मदी लट्लपदी लट्ल लट वर्तमान काल मध्यमुष एक अमस्ती कुर आत्मनेपदी मध्यमपुरुष एक किं वे भगवा हे कौंतेय यशि यत् ददासि यत् तपस्यसि यद् यत जुहोषि सर्वं सर्वं यत् भवा यत् त्वम् कुरुष्वद् यत् त्वम् करोषि तत् मदर्पणं कुरुष्व इत्युक्ते त्वं यत् करोषि यत् कार्यम् करोषि यत् अश्नासि अश्नासि तत्र भोजनम् इति तत्र भोजनार्थं यत् खादसि तु ईक् इति धातु यत् खादसि अनन्तरं जुहोषि जुह, जुह, जुहो जुहो जुहोति इत्युक्ते तत्र हूदानादानयोः इति धातु तत्र यज्ञे यत् समर्पणं भवति यत् अर्पयसि यत् अग्नौ इत्युक्ते यज्ञे यस्य अर्पणं करोति यत् अर्पयसि यत् ददासि तत्र दानम् इति भावः दानं यदि करणीयमस्ति तदा यत् ददासि यत् तपः आचरसि तप तप इत्युक्ते तत्र ध्यानधारणा वा योगसाधना वा तप परिश्रमः इति यत् तपः आचरसि तत् सर्वं मदर्पणं कुरुष्व मदर्पणम् इत्युक्ते वासुदेवाय वह खु कृष्णा सर्पयामी तथा वाशुदेवाय बुद्ध्यापय मत अर्पण श्रीकृष्णर्पणमस्तु तेन किंतीकत्र पवित्रं भवती. पवित्रं भवती, हा यन्ति भगिनी वदतु पवित्रं भवति पवित्रं भवति तस्य कर्म कर्मबन्धनात् भवान् मुक्तः भवति इति मयि सर्वम् अर्पणं मदर्पणम् एव मयि अर्पणम् इति मदर्पणम् अस्तु एवं सर्वमस्ति अधुना कथायाः समयः प्रतिगच्छामः अद्यदिनस्य कथा महत्त्वपूर्णा श्लोकम् आधारीकृत्य एव कथा अस्ति अस्माकम् अद्यदिनस्य एकनिमिषं वा एकनिमिषम् ओ अम्बिकापतिमहोदयः अस्ति वा क्षम्यताम् अहं न दृष्टवती इदानीमेव दृष्टवती अस्तु नमो नमः स्क्रीन् दृश्यते सर्वेषां अम्बिकापतिमहोदय भवान् आरम्भं करोति वा कस्मिञ्चित् ग्रामे प्रथमं तु शीर्षकं पठति वा कर्मफलं कर्मफलं कर्तारम् उदैति उपैति उपैति उपैति अत्र एकवारं वदामि उपैति इत्युक्ते उपैति उपसर्ग उप अधिक एति उप अधिक एति उपैति तत्र इण गतौ इति धातु अस्ति हा इण गतौ इति धातु तत्र इयोगति तत्र गुणभूत्वा एति इति रूपं लट् लकार एव लट् लकार प्रथमपुरुष एकवचनम् इफ् टु गो कर्मफलं कर्तारम् उपैति इत्युक्ते कर्ता यः कर्ता कर्मफलं तम् प्रति एव गच्छति कर्तारम् इत्युक्ते यः कर्ता यः मनुष्यकर्तृरूपेण अस्ति तं प्रति एव गच्छति एति इत्युक्ते गच्छति उपैति इत्युक्ते समीपे गच्छति किं गच्छति कर्मफलम् भगवद्गीतायाः महत्त्वपूर्णसन्देशः कर्मफलं कर्तारम् उपैति यत्र यत्र कर्ता गच्छति तत्र कर्मफलम कर्मफलम एव पठतु कस्मिंश्चित् ग्रामे दशपण्डिताः न्यवसन् ते सर्वे सर्वमीसां <laughs> सर्वमीमांसां Uh, uh, पारंगताह सुखं दुःखं वा यद्यत् भवति तत् सर्वं सर्वस्य कर्मवशात् एव भवति न अन्यथा इति uh, मन्यमानाः ते uh, परस्य सुखदुःखेषु उदासीनतया एव अवर्तन्त आ, अधुरा एकमेकं कस्मिंश्चित् ग्रामे दशपण्डिताः निवसन् इत्युक्ते निवसन्ति स्म भूतकाल ग्राममस्ति तत्र दशपण्डिताः पण्डिताः विद्वज्जनाः शास्त्रार्थ जानन्ति येषां बुद्धि पण्डा इत्युक्ते विकसिता बुद्धिः पण्डा इत्युक्ते विकसिता बुद्धिः येषां बुद्धिविकास् विकसिता पूर्णप्रकारेण तत् पण्डिताः ते वसन्ति दशपण्डिताः निवसन्ति एकस्मिन् ग्रामे ते सर्वकर्ममीमांसायां पारङ्गताः इत्युक्ते पारङ्गताः इत्युक्ते किम् अम्बिकापतिमहोदय पारङ्गताः प्रवीणाः तत्सर्वंमांसा कर्ममीमांसा इत्युक्ते तत्र न्यायशास्त्रमीमांसा तर्कशास्त्र तर्क एवं सर्वं शास्त्रविषयेषु विषयाः सन्ति शास्त्रेषु एते सर्वे विषयाः तत्र मीमांसायां ः सन्ति मीमांसायाम् ते सर्वे प्रवीणाः सन्ति अधुना सुखं दुःखं वा भवति श्रद्धा, श्रद्धा का यत् सुखम् वयं प्राप्नुमः वा दुःखम् प्नुमः यत् सुखं वा दुःखं वा भवति तत् स्वस्य कर्मवशात् एव भवति कर्मफल कर्मफलं रूपेण कर्मफलस्य रूपेण एव सुखप्राप्ति कर्मफलस्य रूपेण एव दुःखप्राप्ति न अन्यथा इति मन्यमानाः ते परस्य सुखदुःखेषु उदासीनतया एव तमसी कह विचार वा श्रद्धा कर्मवशा सुख से दुख से प्राप्ति अरस्थम यदि पशा चेक मन कि खेद न जनयती वे ते सुखस्य अभव न क उदासीनतया उदासीन इत्युक्ते न्यूट्रल् परस्य सुखदुःखेषु विषयेषु ते उदासीनतया एव अवर्तन्त तेषां मनसि उदासीनता एव अस्ति तादृशम् एव वर्तनं तेषां भवति इति अतः अग्रिमे अपि तत् परिच्छनं भवान् पठति वा अम्बिकापतिमहोदय कदाचित् ते कदाचित् ते ग्रामान्तरं गन्तुम् उद्युक्ताः आसन् yes. मार्गमध्ये निर्व निर्जनं वनं त्रैः प्राप्तम् ते yes. वने अग्रे आगच्छन् yes. तावता महावृवृष्टिः आरब्धा अश्शनिः yes. अपि अशकृत् mm. अपतत बीताहते mm. mm. mm. <coughs> <थी तत्त। कराजी coughs> ते आत्मरक्षणाय निकटस्थं मण्डपम् आश्रितवन्तः अधुना किं भवति भवान् वदति वा किम् अभवत् इति कदाचित् ते ग्रामान्तरं गन्तुम् Yes. Uh, they were they went to a village sometime, yes, marga madhye nirjanam vanam thaihi praptavan. Yes. They were there were no people in the um, on the way, they uh, vene agre agachan, they went into the forest. नेक्स्ट् नेक्स्ट् अग्रे आगच्छ तावता महावृष्टिः आरब्धा इट् वास् हेवि रैन् अशनिः अपि सकृत् अप अपतत अशनिः किमर्थम् अधं न जानामि तत्र स्नोफाल् तत्र प्रादेशिकभाषायां हिन्दीभाषायां तत् इति एकः अस्ति तत् अर्शनी इत्युक्ते तत् हेवि स्नोफाल् इति वक्तुं शक्नुमः लैक् स्लीट् आमां इतः ते आत्मरक्षाय निकटस्थं मण्टपं a asritavantah uh, so therefore they were scared and went into a, a hole resting place safety tikata yeah, for safety satyam ah. ha so beta hate atmarakshanae nikatastham mandapam asritavantah astu ha uttamam asti uttamam avlokanam bhavan krutvam ha adina अग्रिमे हा धन्यवादः धन्यवादः हा एतावत् पर्यन्तं किम् अभवत् अवगतवन्तः अग्रिमे अग्रिमे राधा भगिनी पठति वा शास्त्रकुशलानां तेषां भगिनि शास्त्रकुशलानां तेषां चिन्तनम् अपि अशनिदृष्ट्योः कारणम् अन्वेष्टुम् उद्यतम् उद्युक्तम् उद्युक्तम् उद्युक्तम् कश्चन पण्डितः उक्तवान् जन्मान्तरे कृताम् पापमेव अस्मिन् जन्मनि अशनिवृष्ट्याशनिवृष्ट्यादिपीडायाः कारणं भवति hmm. अस्मासु कश्चन कृतमहापापः अस्ति इति भाति इति hmm. एतावत् पर्यन्तं विवृणोतु किञ्चित् किमस्ति ते, ते चिन्तनं करोति एतावत् अशनि वृष्टि किं कारणम् अभवत् अभवत् किं कारणात् अभवत् किं कारणात् अभवत, कश्चन पण्डिताः वदति किमपि जन्मान्तरे किमपि पापं कृतवान् तत्कारणं आशीनस्य पीडा अहं अस्माकं भवति अभवत् अस्मेषु मलब् मध्ये केचन महापाप पापी आसीत् तत्कारणं येषाम् अभवत् तेषु एकः महापापी महापापी उत्तमं भगिनी अत्र पश्यन्तु सर्वेषां तेषां चिन्तनं किम् अन्यस्य सुखस्य दुःखस्य उदासीनता यत् कारणं तत् कर्मवशात् एव अधुना तेषां तात् चिन्तनम् अश्निवृष्टोः अस्मासु तत्र एकः महापापी इति दृश्यते इति अनुभवति इति अस्तु अग्रिमे अपि पठतु तदा तदा अपरः अव अपरः अवदत् एकस्य एव महापापि पापिनः कारण अन्ये सर्वे दुःखभाजः न भवेयुः तस्मात् एकैकेन पण्डितेन मण्डपात् बहिः गत्वा किञ्चित् कालापर्यन्तं स्थातव्यम् यः महापापी स्यात् तस्य उपरि अशनिः पतेत एव यस्य उपरि अशनि अशनिः न पतेत् तस्य सिद्धम् भवेत् mm. महापान् पा, पापिनः mm. अपगमात् अन्ये mm. सर्वे भीतशोकाः भवेयुः इति किं mm. चिन्तनम् तथा तदा एकः अवदत् अहं एका एकस्य पापकृते अहं सर्वे दुःखम् अनुभवन्तु अनुभवन्ति तत् कारणम् अहम् एवं करणीयम् एकम् एकं बहिः गत्वा तस्य उपरि आशने पतितः पतितः अस्ति पतिते एव दृष्टव दृष्टवन्तः यस्य उपरि अशनी पत् पतति ते पाप पापी अस्ति सः पापी सः पापी अस्ति यस्य उपरि अशनि न पतति ते पाप रहित्या भवेत् इति तस्य विचारः उत्तमम् उत्तमं भगिनी भवती अनुभवति वा न अहं न जानामि किन्तु भवती अनुभवति वा कित्तमप्रकारेण भवती इदानीं वक्तुं शक्नोति अर्थग्रहणस्य तत्र निश्चयेन अत्र वर्धनं स्तरवर्धनस्य वर्धनं दृश्यते मया <laughs> एवं खलु तर्हि तत्र स्तरवर्धनं तु अत्र दृश्यते निश्चयेन अवगमन अवगमनं तु उत्तमप्रकारेण तु भवति एव परन्तु तत् सादरीकरणं स्पष्टीकरणं यदा सम्भाषणं कुर्मः चेत् अत्र अपि तस्मिन्नपि स्तरवर्धनं दृश्यते धन्यवादः अधुना अधुना काशि इति ते चिन्तयन्ति एकः एव महापापी एकः एव महापापी तु सर्वेषां तत्र सर्वेषां हानिः न भवेत् इति तेषां चिन्तनं सर्वे दुःखभाजः न भवेयुः इत्युक्त तत्र पापस्य भाग सर्वेषां पापभागिनः सर्वे पापभागिनः न भवन्ति न भवेयुः इति तत्र एकमेकं तत्र एकः पण्डितः बहिः गच्छति किञ्चित् hmm. कालपर्यन्तं तत्र तिष्ठति यदि सः महापापी तदा तस्य उपरि अशनिः पतेत् hmm. अन्येषाम् उपरि न इत्युक्ते hmm. महापापी तस्य उपरि अन्येषा अशनिः पतेत् hmm. तेन किम् अन्येषां बाबराहित्यं सिद्धं भवति hmm. ये जी अंतर्भागे ठीक पापराहि सिनम अह महापापी सह बच्छी तरी अश्नी पते अन तत्मपी य तस्य महानी हानि इत्युक्ते तस्य निधनं भवेत् अनन्तरम् अन्येषु अन्येषु अन्येषां कृते शोकर hmm. नित्यं वित्तशोकाः न शोकः तेषां कृते hmm. कम्प्लीट्लि इति तेषां hmm. अधुना पश्यामः अग्रे किं भवति अवस्तु महोदय पठति वा एतत् अङ्गीकुर्वन्तः सर्वे एकैकशः बहिः अतिष्ठन् नगानां जनानाम पर्यायः समाप्तः तथापि अशान्निपातः तु दशमः एकः एव अवीष्टि अवशिष्टः अवशिष्टः हा पर्याप्तम् अधुना किं भवति महोदय एतत् अङ्गीकुर्वन्तः सर्वे एकैकशः बहिः अतिष्ठन् किं नाम एकैकशः अगस्ट् महोदय एकैकशः इत्युक्ते क्षम्यतां जानामि एकैकशः इत्युक्ते वन् बै वन् एक एकशः एकैकशः तत् अङ्गीकुर्वन्तः इत्युक्ते इट् वास् एक्सेप्टेड् बै आल् देट् तत्र पापकारणात् एव तत्र अश्निपातं भवति देट् इस् <laughs> <laughs> एक्सेप्टेड् अतः तेषां चिन्तनं किं वन् बै एकैकशः बहिः वयं एकैकशः बहिः गच्छति एक एक एक नवानां जनानां पर्यायः समाप्तः इत्युक्ते तत्र मूलतः तत्र दश क्षम्यतां दशपण्डिताः सन्ति दशपंडिता सी एकश एक एक ते सर्वे भही एक एक एक नवानाम सर्े बही गतिकश गवा जान पर्याय सह अभागे आगछति गुना सह अंतर्भागे आगछति नवानां जनानां पर्यायः समाप्तः पर्यायः समाप्तः इत्युक्ते तथापि अशनिपातः तु न अभवत् अशनिपातः न अभवत् हा नवानां जनानाम् अवसरः जातः तर्हि अश्निपातः न अभवत् दशमः एकः एव अवशिष्टः अधुना आगस्ट् महोदय दशमः एकः एव अवशिष्टः इत्युक्ते किम् दशमः इत्युक्ते दशमः हा टेन्त् प्रथमः द्वितीयः तृतीयः तत्र दशपण्डिताः सन्ति एकः बहिः गच्छति अश्विनिपातः न भवति अन्तर्भागे आगच्छति द्वितीयः गच्छति टन् बै तन ते सर्वे गच्छन्ति परन्तु नवानां जनानाम अवसरः जातः अधुना कः शेषः अवशिष्टः रिमेनिङ्ग् हा दशमः एकः एव अवशिष्टः टेन्थ्वान् शेषः दशमः एकः एव अवशिष्टः अधुना तेषां चिन्तनं कं किं तत् अग्रे पश्यामः अवश्यमहोदय धन्यवादः भारतमहोदय धन्यवादः भारत पठति धन्यवाद। पठतिवा अतः अपरे तत आरभ्य आं भगिनि हा अतः अपरे सर्वे निश्चिन्तवन्तः यत् एतस्य पापिनः कारणात् एव असनि असनिपतनम् अशनिपतनम् अभवत् इति अतः ते तं दशमम् आदिष्टवन्तः महापापी भवान् अत्र न तिष्ठत् तिष्ठत् पवत्कारणतः एव असनिपातः जायमानः अस्ति पूर्णं निर्गच्छ इति इतः इष्ट किम् अभवत् अतः अपरे हा वदतु एतत् अङ्गीकुर्वन् तत्र अतः सर्वे महोदय अतः अपरे सर्वे, आ, अपरे, सर्वे नि एतस्य पापिनः कारणात् एव असनिपतनम् अभवत् इति वन् बै वन् सर्वे निश्चितवन्तः एतस् पश्यन्तु एकैकशः बही सर्वे गच्छन्ति तदा किमपि न अभवत् परन्तु शेषः दशमः तत्र शेषः एतावत् पर्यन्तं दशमः न गतवान् ततः ते सर्वे किं चिन्तितवन्तः एषः एव पापीपी एषः एव महापापी तस्मात् कारणात् एव अत्र वृष्टिः जायते तस्मात् कारणात् एव अशनिपतनं प्रवर्तते इति mm -hmm. एष एव महापापी mm -hmm. अतः तेषां मनसि इति धारणा एव दृढतया ते वदन्ति सर्वे किं वदन्ति एषः एव महापापी mm -hmm. अतः तद् दशमं ते वदन्ति mm -hmm. आदिष्टवन्तः आदिष्टवन्तः इत्युक्ते तत् आर्डर् सार्ट् आफ् थिङ्ग् दे आर्डर्ड् हा आदेशम् दत्तवन्तः तत् ते दशमम् आदिष्टवन्तः महापापी भवान् अत्र न तिष्ठेत् इत्युक्ते किम् अत्र न तिष्ठेत् डोण्ट् वेट् य अत्र मा तिष्ठतु भवत् कारणतः एव अशनिपातः जायमानः अस्ति यदा अत्र वृष्टेः अनुभवं वयं सर्वे इदानीम् उष् वृष्टिः जायते अशनिपातः जायते तत्सर्वं भवत् कारणात् यू आर् द रिस्पान्सिबल् फार् दिस् भवत् कारणतः एव यू ओन्ली महापापी तूर्णं निर्गच्छ इतः जस्ट् गेट् औट् फ्रोम् ह्यर् तूर्णं निर्गच्छ इतः भवान् एव महापापी तेषां मनसि धारणा वयम एकैकशः गतवन्तः परन्तु तत्र बहिः गत्वा अस्माकम् उपरि अश्विनिपातः न अभवत् इत्युक्ते यः दशमः इतः एतावत्पर्यन्तं सह न गतवान् सह एव महापापी अतः ते वदन्ति तूर्णं निर्गच्छ अपसर एतः निर्गच्छतु इति स्वस्थमस्ति भारतमहोदय धन्यवादः अधुना अग्रिमे कण्टि भगिनी पठतु किन्तु आम् वेणी किन्तु अन्तकार अन्धकारणात् अन्धकारात् भीतः सः दशमः बहिः गन्तुं न ऐच्छेत् ऐच्छेत् ऐच्छत् किन्तु अन्तकारात् भीतः अन्तकारात् इत्युक्ते डार्क् uh, बिकास् आफ् द डार्क्नेस् hmm. uh, भीतः uh, भयेन अत्र एव तिष्ठन्तः hmm. सर्वे बहिः न इच्छन्ति तदा क्रुद्धा क्रुद्धाः अपरे सर्वे तं किं यद् किम् उद् उद्धृत्य उद्धृत्य बहिः प्रति प्रतीप्तवन्तः प्रक्षिप्तवन्तः सर्वे क्रुद्ध क्रुद्धः ऐ मीन् ते सर्वे कुपितवन्तः अतः अपरे सर्वे सर्वे मिलित्वा तं दशम दशम दशम पण्डिता पण्डितं उद्धत्य बहिः क्षिपितवन्तः सर्वे मिलित्वा तं क्षिपितवन्तः अचिरादेव अचिरादेव महान् अशनीपातः जातः अचिरादेव महान् अशनीपातः जातः सः मण्डप मण्डपस्य मण्डपस्य उपरि एव अपतत् तस्मात् मण्डपः दत्तः जातः नवपण्डिताः अपि मरणं प्राप्तवन्तः मण्डपात् mm. बहिः स्थितः सः दशमः स्वस्य सुहृदां दुर्गतिं स्मरन् विषादेन मृहम् स्वगृहं प्रति आगच्छत् mm. अद्भुतम् अत्र <laughs> mm. <laughs> mm. तत्र mm. चित्रे अपि दृश्यति uh, mm. सः बहिः mm. दशमः आगच्छति तदा एव नवपण्डिताः एव सन्ति परन्तु तदा एव अशनिपातः पतितः अशनिपातयुक्टोम् इति वक्तुं शक्यते खलु आमामां तथैव तथैव तत्र विद्युतसहितम् अस्ति तत् विद्युतसहितं तत्र तत्र आ, इदानीं दशमः तं बहिः आगत आगतवान् ऐ मीन् चित्तवन्तः mm. तत् ता, तत् ता, क्षमये त ता, तत्क्षणे मण्डपस्य उपरि अशिनपातः जातः सः mm. मण्डपस्य उपरि एव अपतत् तस्मात् mm. मण्डपः दत्तः जातः mm. मण्डप मण्डपं दत्तः नवपण्डिताः मरणं प्राप्तवन्तः मण्डपात् बहिः स्थितः दशम पण्डितः स्वस्य सुहृदं दुर्गतिं स्मरन् विषादेन स्वगृहं प्रति आगच्छत् सत्य सस्य ऐ मीन् तस्य तस्य पुण्य पुण्यवण्यव सुहृद इत्युक्ते तत्र सः ऐ मीन् गुड् बेस्ट् फ्रेण्ड् और् बेस्ट् वेल् विशर् इति वक्तुं शक्यते सुहृदां दुर्गतिम् ऐ मीन् ते सर्वे तस्य सुहृदा सुहृदाः भवन्ति खलु अतः कारणात् ते सर्वे दुर्गतिं प्राप्तवन्तः इति विषादेन विष ऐ मीन् तस्य मनसि एकशोकेन स्वं uh, so mm -hmm. mm -hmm. प्रति इत्युक्ते mm -hmm. ये mm -hmm. अन्ये पण्डिताः नवपण्डिताः mm -hmm. चिन्तितवन्तः यः दशमः एषः दशमः एव महापापी परन्तु mm -hmm. दशमः mm -hmm. mm -hmm. महापापी न आसन् न आसीत् अन्ये जनाः महापापिनः अतः तत्र mm -hmm. शम दशम से पुण्यकार तंडपुर आसत अशनीपा जाता कर्म गहना कर्मगति कि अभी न जाना एतत् एषः पापी एषः महापापी एवं वयं वक्तुं तस्मात् वयं तत् वक्तुं न शक्नुमः इति न जानीमः भगवान् भगवान् एव जान् ज्ञातः सत्यं सत्य अधुना सर्वे वदन्तु स्वशब्दैः सर्वेषाम् अवगमनम् इति मन्ये आं स्पष्टमस्ति वा ष्टमस्ति सर्वे अधुना वदन्तु एकमेकम् अतः तत्र पश्यन्तु तत्र श्लोकः यत् श्लोकं वयं पठितवन्तः तत् यत् यद करोषि यदश्नासि यज्जुहोषि यद ददासि यत् यत् तपस्य च कौन्तेय तत् कुरुष्व मदर्पणम् इत्युक्ते सर्व वाट् वी वि डु अहंकार अहङ्कारभावनया अहं करोमि इति वृथाभिमान न भवेत् मनसि अहं पुण्यकार्यं करोमि वा अहम् एवं करोमि यदि अहं न करोमि तदा न भवति तत्सर्वं मनसि न भवेत् एषः भावः तत्सर्वं श्रीकृष्णार्पणमस्तु इति भावनया एव करणीयम् अधुना वदतु एकमेकं एकम भारतमहोदय अम्बिकापतिमहोदय राधाभगिनी सन्ति भगिनी तत् कथायाः विषये वदन्तु अस्माकं किमपि कार्यं कर्तुं किमपि कार्यं कर्तुं अहङ्कारं विना कर्तुं फलं सुखफलं प्राप्नोति सुखप्राप्तिः भवति अहङ्काररहितं कार्यं सुखप्राप्तिं ददाति सुखस्य प्राप्तिं भवति इति प्राप्ति भवति अहङ्कारराहित्येन अहङ्कार न, न भवेत् इति सत्यं सत्यं भारतमहोदय भवान् वदति वा भारतमहोदय यदि अकृत्य करोति तत्र सत्यं सत्यं यदा अन्येषां विषये वयम् अन्यथा अन्येषां विषये वयं विपरीतदृष्ट्या चिन्तयामः तदा दुःखप्राप्तिः एव भवति सत्यं सत्यं सत्यं योग्यं mm -hmm. राधाभगिनी वदति वा आं भगिनि किमपि सङ्कट काले भवत् भवति तर्हि आपत्काले आपत्काले अहम् अन्ये जनाः निन्दनं न करणीयम् अन्ये जनाः अपेक्षापूर्वम् अहं स्वस्य आचरं प्रति चिन्तनं करणीयम् दोषारोपणं मा भवेत् आपत्काले <laughs> स आपत्काले विपदां mm -hmm. दोषारोपणं न भवेत् विपत्काले वा mm -hmm. आपत्काले तत्र mm -hmm. बहुषु स्थलेषु वयं तत्र दोषारोपणं तत्र प्रचलति दोषारोपणं yeah. ततो अनेन एवम् अभवत् अनेन एतस्मात् कारणात् एवं सर्वम् अभवत् एव एवं तत् अभवत मा भवेत् mm -hmm. सर्वेषां तत्र कर्तव्यपालनं मिलित्वा एवं तस्य सङ्कटपरिहारं भवितुम् अर्हति सङ्कटपरिहरणं भवितुम् अर्हति सत्यं सत्यं जयन्ति भगिनी वदति वा आम् धर्ममार्गेण मार्गे गच्छामः फलानि mm -hmm. सर्वाणि बग भग, भगवत् चरणे एव अर्पणं कुर्मः तदा पापं mm -hmm. वा पुण्यं वा न अनुभवामः सर्वं भगवन्तं दृष्ट्या एव पश्यामः सत्यं सत्यं वृथा पापस्य वा पुण्यस्य चिन्तनं मा भवेत् इति वृथा चिन्तनं न करणीयं परन्तु यत् अहं करोमि तत्र भगवता योजनया एव अहं करोमि इति चिन्तनं सत्यं तेन एव तत्र अवडम्बरम् इति न भवेत् पापपुण्यस्य सर्वे पण्डिताः आसन् सर्वे ज्ञानिनः आसन् परन्तु तत्र वृत्वचिन्तनं ते कृतवन्तः दशमं पण्डितम् उपरि वृथा द्रोषारोपणं ते कृतवन्तः तेन तेषाम् एव हानिः अभवत् एतदपि वक्तुम् ऐ मीन् एक इदानीमपि एकवाक्यं वक्तुं शक्यते बेनि अहं चिन्तयामि अहं सम्य धर्मकार्यं कृतवती इति अहं मया ऐ अस्माकं दृष्ट्या अन्यः दुर्कार्यं कृतवन्तः इति वक्तुं शक्यते किन्तु सर्वं भव भगवन्तं दृष्ट्या एव ऐ मीन् पश्यामः चेत् तदेव उक्तं खलु कः धर्मकार्यं कृतवान् कः धर्मकार्यं कृतवान् इति अस्मा वयं वक्तुम् अर्हता न नोग्यता सत्यं तथैव आम् अस्माकं चिन्तनमस्ति ओ बहु हानिकारकः हा, बहु दुःखजनकः हा। परन्तु भगवतः योजनानुसारेण एव सर्वं भवति भगवता योजनया एव सर्वं प्रचलति भगवद्दृष्ट्या एव भगवद्दृष्ट्या एव सत्य योग्य सम्यक् एव अस्तु सर्वेषां कथा होदय वक्तुमिच्छति वा क्षमतां भगिनि बहु पदानि न जानामि न जानाति ईश्वरार्पणबूधि पथना आवश्यकम् एकवारं पठतु सत्यं सत्यं ईश्वरार्पणबुद्ध्या समापयामः अम्बिकापतिमहोदय भवान् शान्तिमन्त्रं वदति वा भगिनि पूर्णम पूर्णमिदं पूर्णात् पूर्णमुदच्छति पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादाः धन्यवादाः <politik> धन्यवादः शिवरात्रि अग्रिमे बुधवासरे आगच्छन्तु पुनर्मिलामः